श्रीमद्भागवत्पुराणं नवं स्कन्ध चतुर्दशोऽध्यायः अपश्यन्नुर्वशीमिन्द्रो गन्धर्वान् समुचोदयत् उर्वशीरहितं मह्यम् आस्थानं नातिशोभते ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते उर्वश्यावुरुणौ जह्नुस्तौ राजनिजाययाम् जा। नि सम्याक्रन्दितं देवीं पुत्रयो नीयमानयोः हतास्म्यहं कुनाथेन न पुंसा वीरमानिनां यद्विश्रम्भादहं नष्टा सितापत्या तदस्यभि यशेते निशि सन्त्रस्तो यथा नारीदिवापमानम् इति निस्त्री समादाय विभस्रोभ्य द्रुवदृशा ते विसृज्यो ऋणौ तत्र व्यद्योतन्तस्म विद्युतः आदाय मे सा वायान्तं नग्नमेक्षतसा पतिम् एलोऽपि सैनिजायाम् अपश्यन्विमना इव तच्चित्तो विह्वलशोचान् बभ्रामोन्मत्तवन्महिम् स तां वीक्ष्य कुरुच्छेत्रे सरस्वस्त्यां च तत्सखी पञ्चप्रहिष्टवदनाः प्राहसुक्तम् पुरुरवाः अहोजाये तिष्ठ तिष्ठ घोरेण चक्तुमर्हसि मां त्वम् अद्याप्य निवृत्य वचांसि किलमावहै सुदेहोऽयं पतत्यत्र देवी दूरं हृतस्त्वयाम् खादन्त्यैनमृकागिध्रा त्वत्प्रसादास्य नास्पदम् उर्वस्युवाच मा मृथा पुरुषोऽसि त्वं मा स्म त्वाद्युवृक्त्वा इमे क्वापि सख्यं न वै स्त्रीणामृकाणां हृदयं यथां श्रियोह्यकरुणा क्रूरा दुर्मर्षा प्रियसाहसाः द्यन्त्यल्पार्थेऽपि विश्रब्धं पतिं विधायालीकविस्रम्भं नज्ञे सुसोषिदाः नवं नवं हिंसन्त्यः पुश्चलल्य स्वैर्वृत्तयः संवत्सरान्ते हि भवानेकरात्रं महेश्वर वस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भोम् अन्तर्वत्नीमुपालक्ष्य देवीं श प्रयो पुनस्तत्र गतो उर्वशीं विर्मातुरम् उपलभ्य मुदा युक्तसंवासचयानुशाम् अथैनमुर्वशी प्राहं कृपणं बृहातुरम् गन्धर्वानुपधा मे मा तुभ्यं दास्यन्ति मामिति तस्य संसुवतं वतस्तुष्टाम् अग्निस्थालिं ददु उर्वशीं मन्यमानस्तां शोबुध्यचरन्वने सरिम्यस्य वने गत्वा गृहाणाध्यायतोदृशी तेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत तालिस्थानं गतो स्वस्थं शमीगर्भं विलक्षस तेन द्वे अरणीकृत्वा उर्वशी लोककाम्याम् उर्वसिं मन्ततो ध्यायन् न धरारणे मुत्तराम् आत्मानम् उभयोर्मध्ये यत्तत्प्रजननं प्रभु। तत् निर्मन्थनाद् जातो जातवेदाविभावसु तया स विद्या राज्ञा पुत्रत्वे यज्ञेशं भगवन्तम् अथोक्षजम् उर्वशी लोकम् सर्वदेवमयं हरिम् एक एव पुरा वेदा प्रणव सर्ववाङ्मयः देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च पुरुरवसं देवासी त्रयित्रेतामुखेऽणपम् अग्निना प्रजया राजा लोकं गान्धर्वमेवान् इति श्रीमद्भाकुते महापुराळे पारहंस्यां शयितायां नं विस्कन्धे ऐलोपाख्याने चतुर्दशोऽध्यायः